अमात्यानुपधाति तान् पितृपैतामहान् शुचीन् श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु कच्चिन्नोऽग्रेण दण्डेन भृशमुद्विजसे प्रजाः राष्ट्रं तवानुशासन्ती मन्त्रिणो भरतर्षभा कच्चित्त्वां नावजानन्ती याजकाः पतितं यथा उग्रप्रतिगृहीतारं कामयानमिवस्त्रियः स्त्रियः शूरश्च मतिमान् धृतिमान् शुचिः कुलीनश्चानुरक्तश्च दक्षस्येनापतिस्तथा कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः दृष्टावदाता विक्रान्तास्त्वया सत्कृत्यमानिताः च वेतनं च यथोचितम् सम्प्राप्तकाले दातव्यं कालातिक्रमणादेते भक्तवेतनयोर्भृताः भर्तुः कुप्यन्ति यद्भृत्याः सोऽनर्थः सुमहान् स्मृतः कच्चित् सर्वेऽनुरक्तास्त्वाम् कुलपुत्राः प्रधानतः कच्चित् प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि कच्चिन्नैको बहूनर्थान् सर्वशसंपरायिकान् अनुशास्ति यथा कामम् कामात्माशासनातिगः पुरुषकारेण पुरुषः कर्म लभते मानमधिकं भूयो वा भक्तवेतनम् कच्चिद्विद्याविनीतांश्च नरान् ज्ञानविशारदान् यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे तवार्थे तवाे मृत्युमीयुषा व्यसनम चाभ्युपेता बिहर्षितर्षभ कच्चि भयादुपगतं, क्षीणं वारिपुमागत युद्ध वेजिम पार्थ पुत्रवत् कचिव पृथिव्या समस्श्यता पिता कच्चिद्व्यसनिनम् शत्रुम् निशम्य भरतर्षभा अभियासि जवेनैव समीक्ष्य त्रिविधम् बलम् यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम पार्ष्णिमूलम् च विज्ञाय व्यवसायम् पराजयम् लस्य च महाराज दत्त्वा वेतनमग्रतः कश्चिच्च बलमुखेभ्यः परराष्ट्रे परन्तप उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः जिगीषसेसे प्रमत्ता न जितेद्रिियािते यून पूर्व ये स्वुष् सामदंड विधिवुण कच्चिन्मूलं दृढं कृत्वा परान्यासि विषम्पते तांश्च विक्रमसे जेतुम् जित्वा च परिरक्षसि कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला च मुः बलमुख्यैः सुनीताते द्विशतां प्रतिवर्धिनी कच्चिल्लवम् च मुष्टिम् च परराष्ट्रे परन्तप अविहाय महाराजा निहंसि समरेपून् कच्चित् स्वपरराष्ट्रेषो बहवोऽधिकृतास्तव अर्थान् समधितिष्ठन्ति रक्षन्ति च परस्परम्